गरुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायं 22. टु श्रीकृष्ण उवाच या लक्ष्मणा पूर्वसर्गे खगेन्द्रपुत्री ह्यभूध्वनिवेदस्य वेतुः सुलक्षणैः संयुतत्वाद्यतः सा लक्ष्मणेधि प्रदिदा खगेन्द्र यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः यथा वायुर्लक्षणैपूर्ण एव यथा वा। गायत्री लक्षणैः स सुपूर्णा यथा रुद्राद्या लक्ष्मणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा गुणेनैवं धर्मदकिञ्चिदेव तद्धानुसन्धानाद्व्रीयते नाम चापि तस्मादाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं शृणु चादौ खगेन्द्रनारायणे पूर्ण गुणे रमेशे द्वात्रिंशत्सङ्ख्यानि सुलक्षणानि सन्ध्येव पक्षीन्द्रवदाम्यनुक्रमान्मत्तश्रुत्वा मोक्षमाप्नोदि नित्यं यः सप्तपादशण्णवत्यङ्गुलोऽङ्गश्चतुर्हस्तपुरुषस्त्रीष् पुरुषस्तीक्ष्णदन्तः ययेतत् सर्वं मिलितं चैकमेव हरेर्विष्णोर्हरेर्विष्णोर्लक्षणं चाहुरार्याः मुखं स्दीग्धं वर्दुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः हन्योर्यस्यानुन्नतं चास्तिवीन्द्रतल्लक्षणम् प्राहुरार्यास्तृदीयम् यदन्ता वैतीक्ष्णसूक्ष्माश्च सन्धितल्लक्षणम् चाहुरार्याश्च दुर्धम् यस्या धरे रक्तिमा त्विस्तिवीन्द्रतल्लक्षणम् पञ्चमम् चाहुरार्याः यस्य हस्ता अधिरक्ता कगेन्द्रतल्लक्षणम् हुरार्याश्चषष्ठमम् यस्मिन्नखाः सन्धिरक्दाः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः यस्मिन् कपोले रक्तिमास्त्विस्तिवीन्द्रतल्लक्षणं ह्यष्टमम् प्राहुरार्या यस्मिन् करे शङ्खचक्रादिरेखावरुदन्दे तन्नवमं प्राहुरार्याः यस्योदरं तन्दुरूपं सुपुष्टं वलित्रयैरङ्गितं सुन्दरं च तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः ऊरुद्वयं यस्य जमांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः कडिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्मतदाहुरार्याः यस्यास्ति मुष्कोसुपरिष्टिदो वै चतुर्दशं लक्ष्मतदाहुरार्याः मुन्नतं शिष्णमधो हिलक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ती सुत्राम्रगम् सुधाम्रगम् पादतलं खगेन्द्रतल्लक्षणं षोडशम् प्राहुरार्याः निम्नौ जगुल्फौ सप्तदशं तदाहुर्ग्रीवारूपम् प्राहुरष्टादशं च एकोनविंशम् स्वक्षिपद्मं सुरक्तम् प्राहुर्बाहुं जानो विंशं तथैव विस्तीर्णोरश्चैकविंशं तदाहु सिंहस्कन्धं द्विुत्तरं विंश्यमाहुः त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विंशं सुप्रसन्ने च दृष्टि ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्रतल्लक्षणं पञ्चविंशं वदन्ति समौ च पादौ कटिजानुचोरु षड्विंशमाहुश्च समे च जङ्घे समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम् द्वात्रिंशत्कं दुआत्रिम्षत्... लक्षणं ब्रह्मणोऽपि तद्भारत्याः प्रवदन्त्येव सत्यं तथा च शङ्कासमेव चक्रीणेत्येवं सदा मा कुरु ब्रुवे एकस्य वैलक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक् प्रपेदे अधो नन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव जानादिलक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यादिक्तं खगेन्द्र स्वलक्षणापेक्षया भारतीदुषतैर्गुणैरधिका वेधसोऽपि खगेन्द्र तस्माल्लक्षणे साम्य चित्तं विश्वादीनां सर्वदा मा गुरुष्व अष्टाविंशतिं प्राहु रुद्राधिकानां भूनेत्रयोर्लक्षणेनैव हीनाः अलक्षणं मन्यते यद्धितस्य दुर्लक्षणं नैव तच्चिन्तनीयम् अष्टाविंशतिं लक्षणं वै हरस्य न भारदीवचिन्तनीयं खगेन्द्र अधो हरक्रोधरूपी सदैव तयोरभावात् सत्यमुक्तं तथैतद अधोद्वयं नास्ति रुद्रे खगेन्द्रशिश्नोदरे किञ्चिदाधिक्यमस्ति सप्ताधिकैर्विंशतिलक्षणैस्तु समायुधा स्वस्त्रियो लक्ष्मणाद्याः षड्विंशत्यालक्षणैश्च अभियुक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः अर्धश्चतुर्विंशतिभिश्चैव युक्तो नासा वायोर्द्वधिका विंशतिश्च लक्षणैश्चैकविंशत्याशचीयुक्ता न संशयः प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः पाष्यष्टा दशभिर्युक्तो दशसप्तयुधो नलः वैवस्वदशोडशभिर्मित्र पञ्चदशैर्युदः चतुर्दशै तु धनपपावकस्तुत्रयोदशैः गङ्गाद्वादशभिर्युक्ताबुध एकादशैर्युदः शनिस्तु दशसङ्ख्याकैः पुष्करो नवभिर्युदः गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युदः शनिस्तु पुष्करो नवभिर्युदः अधषोडशसहस्रं भार्यास्तु मम वल्लभाः अष्टभिश्चैव संयुक्ता सप्तभिः षड्भिश्च देवगन्धर्वाक्पञ्चभिस्तदनन्तराः चतुर्भिः क्षिदिपाप्रोक्तास्त्रिभिरन्ये च संयुताः उदरे किञ्चिदाधिक्ये ह्रस्वे पादे च कर्णयोः शिखाधिक्यं विना विप्रभार्यायां च शिवस्य च लक्ष्मणायां पञ्चदोषाः शिरो गुल्फाधिकं विना नाभ्याधिक्ये सहैवाष्ठौ दोषाः सन्त्यधिवाहि के जङ्काधिक्ये सहैवाष्ठौ दोषा शच्याः सदा स्मृताः एवमेव हि दोषाश्चाप्युहनीया खगेश्वर दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेद महोदरो लम्बनाभिरीष मात्रोऽग्रदंष्ट्रकः अन्धकूपगभीराक्षो लम्बकर्णौष्ठनासिकः लम्बगुल्फो वक्रपाधकुनकीश्यावदन्तकः दीर्घजङ्गो दीर्घशिष्णस्त्वेकाण्डश्चैकनासिकः रक्तश्मश्रु रक्तदरोमा वक्रास्य सम्प्रकीर्तिदः दग्धपर्वतसङ्काशो रक्तपृष्ठकलिस्मृदः अलो मांसो लोमशिरारक्तगण्ठकपोलकः ललाडे पाण्डुता नित्यं वाम खरे खग क्रूरदृष्टिर्दृष्टिपादस्तथा वै कर्करस्वरः अत्याशीचादिपानश्च स्थनौ शुष्कफलोपमौ ऊरौ न वाञ्चिकारो मत्तथा पृष्ठे च मस्तके ललाडे त्रीणि समे द्वौ सम्प्रकीर्तितौ सर्पाकारस्तु यो मत्स्यस्तस्य शिष्णे प्रकीर्तिदः पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तिदः शिष्णाकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः हस्ते बहुरेखा स्युर्लोम नासा पुडे स्मृतम् अधिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चादिदीर्घकं दुर्लक्षणम् त्वेवमादिकलावस्थिह्यनेकशः सुलक्षणान्ये सुलक्षणान्यनेकानि मयि सन्ति खगेश्वर द्वात्रिंशल्लक्षणम् विष्णोद्ब्रह्माद्यापेक्षयैव तद सहाभिप्रायगर्भेण ब्रह्मणोक्तं तव प्रभो ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सतम मयोक्कृतस्यैव सव्यासकम्बुग्रीव प्रदर्श्यते रक्ताधरं रक्ततालु चैकीकृत्य मयोदिदम् अधो विरोधो नास्त्येव तथा ज्ञानात् सप्ताकशतिलक्षणस्तुधाया दि स्त्रि लक्षणाद्या भगे नेत्रेज हस्तेज स्तने कुक्ष तथा जेक्षया पंचभिर्न्यूनाल नरुद्रवन्न चान्यानि लक्षणानि खगेश्वर षड्विंशत्या लक्षणैश्चाभि युक्ता वारुण्या षड् लक्षणैश्च लक्षणैश्चैव हीना कर्णे कुक्षौ नासि काकेश गुल्फे भगे दाधिक्यमस्ति इन्द्रो युक्तपञ्चविंशत्याखगेन्द्रसदाहीनो लक्षणै सप्त सङ्ख्यैः हस्ते पादे उदरे कर्णयोश्च शिश्ने गुल्फे त्वधरोष्ठेऽधिकं च चतुर्विंशत्यालक्षणैश्चाभि युक्दो नास्तिक्य वायुस् तद्वदेवाष्टभिश्च नानुरर्घ्रोश्च नाभ्यां गुल्फे हनुरर्ह्रियोंश्च ना हनुर स्कन्दे द्विजे नेत्रे त्वधरोष्टेऽधिकं च त्रयोविंशत्या लक्षणैश्चाभियुक्ता शचीतधानवदोषैश्च युक्ता बगे केशे ह्यदरोष्टे च कर्णे जङ्घे गण्ढे वक्षसि गुल्फयोश्च तथोत्तरोष्टे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्दोष्यै प्रवाहो नाम वायुः तदाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देशतोर्कः तद्विंशत्यालक्षणैः संयुतस्तु तदा दोष्यैर्द्वादशभिश्च एकोन विंशत्यलक्षणैश्च वि युक्तस्त्रयोदशभिस्तदभावैर्युदोऽग्निः अष्टादशभिर्लक्षणैः संयुधस्तु वैवस्वदस्तदभावैश्च दुर्दशभिः मित्रस्तु सप्तदशभिर्लक्षणैः संयुदाखव स दोषै पञ्चदशभिस्संयुक्तो नात्र संशयः तैश्च षोडशभिर्युक्तो धनभो नात्र संशयः तदभावै षोडशभिस्संयुक्तः सम्प्रकीर्तितः तैः पञ्चदशभिश्चैव युक्तोऽग्रे ज्येष्ठपुत्रकः तैः सप्तदशभिर्दोषै संयुक्तो नात्र संशयः तैश्च दुर्दशभिश्चैव गङ्गा सम्परिकीर्तिदा तदाष्ठादशभिर्दोष्यैः संयुदा नात्र संशयः तैस्त्रयो संयुदो बुधये वधू दोष्यैरेकोनविंशत्या नात्र संशयः शनिर्विंशतिदोषेण युधोद्वादशलक्षणैः लक्षणैश्चैका दशभिपुष्करपरिकीर्तिदः एकविंशतिसंख्याकैरासद्भाव्वै प्रकीर्तिदः दशभिर्लक्षणैर्युक्दापिदरो ये चिराकग त्रयोविंशति दोषैश्च संयुधा नात्र संशयः अष्टभिर्लक्षणाैर्युक्तादेव गन्धर्वसप्तमाः दोषैर्चदुर्विंशतिभिस्संयुक्ताः परिकीर्तिताः सप्तलक्षणसंयुक्ता यैस्तु पञ्चविंशतिभिर्दोषैः संयुक्दा प्रकीर्तिताः षड्गुणैः क्षितिपायुक्ता षड्विंशत्या च दोषधः तदन्ये पञ्चभिर्युक्तश्चतुर्भिक् के जिदेव च त्रिभिक् के जि न सन्धिखगसप्तमा यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यदृश्यते लक्षणस्य न ते नरा नैव देवैः सर्वे नैव ह्युत्तमा सर्वदैव ये देवा ये ज दैत्याश्च सर्वेऽप्येवं खगाधिभ लक्षणालक्षणैश्चैव क्रमेणोक्दानसंशयः लक्षणैः सप्तविंशत्या लक्षणैः संयुता खग अधः स लक्षणाज्ञेया द्वात्रिंशल्लक्षणैर्नहि पितृगेहे वर्धमाना सदाभि स्वकुटुम्बं श्रेष्ठयितुं खगेन्द्र उवाच सा पितरं दीयमानमन्नाधिकं त्रमित्रादिकेषु सदापि येत्वनुसन्धानेन युक्ता अन्तर्गते तत्र तत्र स्थिते च अज्ञातत्वे चान्नपानादिकम् च दत्तम् सन्तो व्यर्थमेवं वदन्ति हरिम्भक्ष्ये तत्र तत्र स्थितम् च वै शृणुत्वादरेणाद्य नित्यम् बालो हरिर्बालरूपेण कृष्णः क्षीरादिगं नवनीतं घृतं च गृह्णादिनित्यम्भूषणं वस्त्रजातमेवं दद्या सर्वदा विष्णुतुष्ट्यै मित्रैर्हरिकेशवाक्यो मुकुन्दो भुङ्े दत्तं त्वन्नप्राणादिकं च पूर्वम् दद्या सर्वदा वैगृहस्थो धन्यो भवेदन्यथा व्यर्थमेव गृह्णादि नित्यम् माधवाक्या हरिचेत्येवम् ज्ञात्वा देयमनाधिगम् एवम् ज्ञात्वा दीयमानेन नित्यम् प्रीणादिविष्णुर्नन्यथा व्यर्थमेव गृहे नित्यं वासुदेवो हरिस्तु प्रीणादिनित्यं तत्र तिष्ठन् सुवर्ण एवं ज्ञात्वा स्वगृहं सर्वदैव अलङ्कुर्या धातुरूपै सदैव गोविन्दाख्यस्तिष्ठति वैष्णवानां पुत्रैर्युतस्तिष्ठति मित्रे मुकुन्दश्च शालके चानिरुद्धो नारायणोद्विजवर्ये सदास्ति कोष्ठे नित्यं नित्यं विष्णुरूपीहरिस्तु अश्वे सदा तिष्ठति वामनाख्यः सङ्घर्षणशूद्रवर्णे सदास्ति वैश्ये प्रद्युम् न तिष्ठति सर्वदैव जनार्दनः क्षत्रजादौ सदास्ति दाशेषु नित्यम् महि दासो हरिस्तु मह्याम् नित्यम् तिष्ठति सर्वदैव ह्युपेन्द्राख्यो हरिरेकसुवर्ण गजे सदा तिष्ठति चक्रपाणि सदान्तरे तिष्ठति विश्वरूपः नित्यं श्युनितिष्ठधिभूतभावनपिलकायामपि सर्वदैव त्रिविक्रमो हरिरूप्यन्तरिक्षे सर्वजादा वनन्तरूपी हरिश्च हरेर्नवर्णोऽस्ति गोत्रमस्ति न जातिरीश्ये सर्वरूपे विजित्रे येवं ज्ञात्वा सर्वदा लक्ष्मणादु हरिं सदा प्रीणयाम देवी सपर्यया वै क्रियमाणया हरिपदिर्ममस्यादिति चिन्तयाना तत्याजदेकं विष्णुपदित्वकामा मद्रेषु वैवीन्द्रपुत्री प्रजादा स्वयंवरे लक्ष्मणाया अहं च भित्त्वा लक्ष्यं भूपदीन्द्रावयित्वा पाणिग्रहं लक्ष्मणायाश्च कृत्वा गत्वा पुरीं रमयामः स देवी विवाहं मत्पत्नीत्वे कारणं त्वां ब्रवीमि इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे लक्ष्मणाविवाहहेतुनिरूपणम् नाम द्वाविंशोऽध्यायः ओम् अध्यायम् 23 श्री श्रीकृष्ण उवाच सोमस्य पुत्री पूर्वसर्गे बभूव भार्या मदीया जाम्बवती मम मध्ये ह्यथिकावीन्द्र किञ्चिद्रुद्रादिभ्यः पञ्चगुणैर्विहीना यदा वेशो बलवान् स्याद्रमायां तदा नास्स केशवोलम् यदा वेश्याद्रासमुपैति तदा तासाम् साम्यमाहुर्महान्तः लक्ष्म्या वेश्य किञ्जिदस्त्येव नित्यमदस्ताभ्यक् किञ्चिदाधिक्यमस्ति गरुड उवाच तासां मध्ये जाम्बवन्ती तु कृष्ण आराधनं तन्मे ब्रूहि कृपया विश्वमूर्ते आधिक्ये वै कारणं ताभ्य एव गरुडेनैव मुक्तस्तु भगवान् देवगीसुदः मेघगम्भीरया वाचा उवाच विनता सुदम् श्रीकृष्ण उवाच या पूर्वसर्गे सोमपुत्री बभूवपि दुर्गृहे वर्तमानापि साध्वी जन्म स्वकीयं सार्धकं वै चकार पित्रा साकं विष्णु शुश्रूषणेन च शुश्रावनित्यं सत्पुराणानि चैवं चक्रे सदा विष्णु पादप्रणामं चक्रे सदा तारकस्यापि विष्णु प्रदक्षिणं स्मरणं कुर्वती सा पित्रासागं पित्रा साकं साधुकन्याफगेन्द्रवैराग्ययुक्ताश्रवणात्सम्बभूव केशं च मित्रं द्विराधाधिकं च अनर्घ्य रत्नानि गृहाधिकं च सर्वं ह्येदन्नश्वरं चैव मेने ममाधीनं हरिणा वैकृतं च येनैव दत्तं पुत्रमित्रादिकं च तेनाहृतं वेदनां नैव चक्रे विष्णु विष्णुः परमोदयालुः दयां मयि हृदवांस्तेन सुष्ठु पित्राः साकं कन्यका साधुवीन्द्र सदात्मनिह्यमले वासुदेवे एकान्तत्वं सुष्ठुभक्रिया गदा सा यदृच्छया सोपपन्नेन देवी अकल्पयन्त्यात्मनो वीन्द्रवृत्तिं चकार यत्सावधिराधं प्रथैव सावैवित्तम् विष्णुपादारविन्दे दुःखार्णवास्तरागे संचकारा। वागिन्द्रिद्रियं खग सम्यक् चकार हरेर्गुणानां वर्णने वा सदैव अस्तौ च विष्णोर्गृहः सम्मार्जनादौ चकारदेवी गात्रमलापहारम् श्रोत्रं च चक्रे हरिस्त हरिः सत्कथोदये मोक्षादिमार्गे ह्यमृदोपमे नेत्रं च चक्रे प्रतिमादिदर्शने अनादिकालीनमलापहरिणि सद्वैष्णवानां स्पर्शने चैव सङ्गे निर्माल्यगन्धान् विलेपने त्वक्रार्णेन्द्रियं सा हरिपादसारे चकारसंसारविमुक्तिदे च जिक्वेन्द्रियं हरिनैवेद्यशेष्ये श्रीमत्तुलस्यादिविमिश्रिते च पादौ हरेः क्षेत्रपधानुसर्पणे शिरो ऋषिकेशपदाभिवन्दने कामं कृदास्येतु हरिदास्यकाम्या तथोत्तमश्लोकजनाश्चरन्ति निष्कामरूपे च मतिं चकार स्तवनं स्वीचकार एवं सदा कार्यसमूहमात्मना समर्पयित्वा परमेश पादयोः तीर्पाडनार्थं तु जगामपित्रा साकं हरे आराधयित्वा ब्राह्मणान्विष्णुभक्तानादौ गृहे वस्त्रसम्भूषणाद्यै पश्चात् कल्पम् कारयामास देवी विष्णोरग्रे तीर्थयात्रार्थमेव यावत्कालम् तीर्थयात्रा मुकुन्द तावत्कालम् तु द्वरेदा भवामि यावत्कालम् तीर्थयात्राम् करिष्ये तावद् तावद्दत्ताद्वैष्णवानां च सङ्गं हरेकथाश्रवणं स्यान्मुकुन्द नावैष्णवानां सङ्गीनामङ्गसङ्गं सुगृजनैः पुत्रमित्रादेकैश्च दीर्थाडनं नैव कुर्यां मुकुन्द कुर्वन्ति ये काम्यया तीर्थयात्रां तेषाम् सङ्गम् कुरु दूरे मुकुन्द शालग्रामम् ये विहायैव यात्रां कुर्वन्ति तेषाम् किं बलम् प्राहुरार्याः यदा तीर्थानाम् दर्शनम् स्यात् तदैव शालग्रामम् पुरतः स्थापयित्वा तीर्थाटनम् पाद चैढैकृतम् चेत्पूर्णम् बलम् प्राहुर्या खगेन्द्र पादत्राणम् पादरक्षाम् च कृत्वा तीर्थाडनम् पादहीनम् तदाहुः यो वाहने तुरगे चोपविष्टस्तीर्थाडनम् कुरुदे चार्थहीनम् वृषादीनाम् वाहने पादमाहु परान्नानाम् भोजने व्यर्थमाहुः महात्मनां वेदविदां यदीनां परान्नानां भोजनेनैव दोषः सङ्कल्पयित्वा परमादरेण जगाम स तीर्थयात्रार्थमेव आदौ स्नात्वा हरिनिर्मात्यगन्धं विसर्जयित्वा श्रवणं वै चकार पित्रा कृत्वा अग्रे दिने क्रोश्यमेकं जगाम तत्र द्वीजान् पूजयित्वान्नपान रात्रौ तत्त्वम् श्रावयामास देवी एवम् यात्राम् ये प्रकुर्वन्ति नित्यम् तेषाम् यात्राम् सफलाम् प्राहुरार्याः विनादयाम् तीर्थयात्रा खगेन्द्रव्यर्थेत्येवम् वीन्द्रचाहुर्महान्तः दिवारात्रौ येन शृण्वन्ति दिव्यां हरे कथां तीर्थमार्गे खगेन्द्र व्यर्थं व्यर्थं तस्य चाकुर्गतं वै अश्वादीनां वाहनानां च विद्धि अश्वादीनामपराधं वधस्व गङ्गादीनां दर्शनात् पापनाशः क्षेत्रस्थविष्णोर्दर्शनात् पापनाशो मार्जारस्याप्यपराधं वधस्व क्षेत्रस्थविष्णो पूजनात् पापनाश पूजावताम पराधम् वदस्व जपादीनाम् कुर्वताम् पापनाशो विष्णो ध्यानात् सद्य एव कनाशः अनुसन्धानाद्रहितम् सर्वमेव कृतम् व्यर्थमेवेदि चाहुः अदो हरे पापविनाशिनीम् कदाम् श्रुत्वा विष्णोर्भक्तिमान् स्याद्खगेन्द्र दृष्ट्वा दृष्ट्वा हरिपादाङ्गितम् च स्मृत्वा स्मृत्वा भक्तिमान् स्याद्खगेन्द्र पित्रा साकम् कन्यका सापि वीन्द्रशेषाचलस्थम् श्रीनिवासम् च द्रष्टुम् जगामसामार्गमध्ये हरिं च सा च कदा द्रक्ष्ये श्रीनिवासस्य वक्षश्रीवत्सरत्नैर्भूषितं विस्तृतं च कदा द्रक्ष्ये श्रीनिवासस्य तुन्दं वलित्रयेणाङ्गितं सुन्दरं च कदा द्रक्ष्ये श्रीनिवासस्य कण्ठम् अहर्लोकस्याश्रयं कम्बुतुल्यम् कम्बुतुल्यम् कदा द्रक्ष्ये श्रीनिवासस्य नाभिं सदान्तरिक्षस्याश्रयं वै सुपर् वै सुपूर्णं कदा द्रक्ष्येवदनं वैमुरारेर्जनलोकस्याश्रयं सर्वदैव शिरः कदा श्रीनिवासस्य द्रक्ष्ये सत्यस्य लोकस्याश्रयं सर्वदैव कडिं कदा श्रीनिवासस्य द्रक्ष्ये भूल्लोकस्याश्रयं सर्वदैव कदा द्रक्ष्ये श्रीनिवासस्य चोरुतलातलस्याश्रयं सर्वदैव कदा द्रक्ष्ये श्रीनिवासस्य जानूसुकोमलं सुतलस्याश्रयं च कदा द्रक्ष्ये श्रीनिवासस्य जङ्घे रसातलस्याश्रये सर्वदैव कदा द्रक्ष्ये पादतलम् हरेश्च पादालोकस्याश्रयम् सर्वदैव इत्थं मार्गे चिन्तयन्ती च देवी शेषाचले शेषदेवं ददर्श फणै सहस्रैः सुविराजमानम् नानाध्रुमैर्वानरैर्वानरीभिः अनन्तजन्मार्जितपुण्यः संचयान्मयाद्यदृष्टपरमाचलोही तद्दर्शनाद् बाष्पकलाकुलेक्षणा सद्यः समुद्धायननाममूर्ध्ना मुखं च दृष्ट्वा न मनं च कार्यं पृष्ठादिभागे न मनं सापि द्वि अष्टकम् नमनं च चक्रे शालग्रामम् स्थापयित्वा पुरोऽस्य युद्धम् कार्यम् वैष्णवै पर्वतस्य त्वम् वैष्णवैर्विपरीतं च कार्यम् मध्वान्धस्थः पर्वताग्रे स्तिनित्यम् रमा ब्रह्माद्यैपूजितश्रीनिवासः सुसप्तमं परमं श्रीनिवासं द्रक्ष्ये दासं ह्यारु रुक्षे चलञ्च इत्येवमुक्त्वा कपिलाख्यतीर्थे स्थानं चक्रे सा स्वपित्रा सहैव अत्रैवास्ते श्रीनिवासो हरिष्तु द्रव्येण रूपेण चान्यधेदी आदौ स्नात्वा मुण्डनं तत्र कृत्वा तीर्थश्राद्धं कारयित्वा सुदीर्थे गोभूहिरण्यादि समस्तदानं दत्त्वा शैलं चारुरोहाधसाध्वी शालग्रामं स्थापयित्वा स चाग्रे प्रणामं सापि चक्रेषु भक्रिया सोपानानां शतपर्यन्तमेव मारुह्यः सा तु तत्र शुश्राव स भगवदं पुराणं शुश्राव वै वेङ्कडाध्रे प्रशंसं जयीषव्याद्गुरुपादात्सुभक्त्या शुश्रावतत्त्वं वेङ्गडाद्रेश्च सर्वम् इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे वेङ्कटेश गिरियात्राक्रमनिरूपणं नाम त्रयोविंशोऽध्यायः ओम्